प्रत्यलोके प्रत्यलक्षणम् नर्मताङ्गस्य अचोञ्चालितिपधा अभिति निर्दिष्टे पूर्वस्य प्रत्यलोके प्रत्ययलक्षणम् नर्मताङ्गस्य अचोञ्चारिति ञ्जा पूर्वभधा तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य तस्मादित्युत्तरस्य तस्मादित्युत्तरस्य श्यामि स्यो श्यामादित्युत्तरस्य तस्मादित्युत्तरस्य तस्मादित्युत्तरस्य तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य तस्मिन् नितिः निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वं रूपम् शब्दस्य शब्दसंज्ञा स्वरूपम् शब्दस्य शब्दसंज्ञा स्वरूपम् शब्दस्य शब्दसंज्ञा स्वं म् संपम् रूपम् रूपम् रूपम् रूपम् रूपम् स्वम् रूपम् संरूपम् संरूपम् शब्दस्य शब्दसंज्ञा शब्दस्य शब्दसंज्ञा शब्दस्य शब्दसंज्ञा स्वरूपम् शब्दस्य शब्दसंज्ञा संरूपम् शब्दस्य शब्दसंज्ञा संरूपम् शब्दस्य शब्दसंज्ञा तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा अनुदिवर्णस्य च प्रत्ययः अनुदित् सवरणस्य च प्रत्ययः अनुदित् सवरणस्य च प्रत्ययः स्वरूपम् शब्दस्य शब्दसंज्ञा अङ्गत स्वर्णस्य च प्रत्ययः संरूपम् शब्दस्य शब्दसंज्ञा अनुदि सवर्णश्चा प्रत्ययः अङ्गीत् अनुदित् अनुदित् अत् अङ्गित् अनुदित् अनुदित् सुवर्णस्य सवर्णस्य सवर्णस्य सवर्णस्य अङ्गित् सवर्णस्य अनुदि अणुदेवर्णस प्रत्यय चय चत अस्वर्ण से प्रत्यय अणुदेस वर्ण से तपरस्तत्कालस्य अनुदित सवर्णस्य च प्रत्ययः तपरस्तत्कालस्य अनुदित सवर्णस्य तपरस्तत्कालस्य अनुदित सवर्णस्य तपरस्तत्कालस्य स्वं शब्दस्य शब्दसंज्ञाम् अनुनि सवर्णस्य सपरस्तत्कालस्य संरूपम् शब्दस्य शब्दसंज्ञा अनुवित्सवरणस्य चाप्रत्ययः सपरस्तत्कालस्य तस्माभि संरूपम् शब्दस्य शब्दसंज्ञा अनुमित्सवणस्य च प्रत्ययः सपरस्तत्कालस्य आदिनन्त्येन समेका तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसंज्ञा अनुदिवरणश्चाप्रत्ययः तपरस्तत्कालस्य आदिरन्तेन सहेता आदिरन्तेन सहता तत्र लोकम् ननुमङ्गस्य अजोन्त्यादिः अलोन्त्या पूर्वबधा तस्मिन्धिति निर्दिष्ट पूर्वस्य तस्माुत्तरस्य स्वम् रूपम् शब्दस्य शब्दसञ्ज्ञा अनुदिष्टमर्णस्य चाप्रत्ययः तपरस्तत्कालस्य आदिनन्त्येन सहेता येन विधिस्तदन्तस्य नष्टे लोपे प्रष्टे लक्षणम् नालोताङ्गस्य अचोन्त्यानि अलोन्त्यात् पूर्वपदा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य संरूपम् शब्दस्य शब्दसंज्ञा अनुदित्सवरणश्चाप्रत्ययः तपरस्तत्कालस्य आदिरन्तेन सहेता येन विधिष्टदन्तस्य येन विधिष्टदन्तस्य आदिरन्तेन सहेता येन विदिष्टदन्तस्य आदिरन्तेन सहता येन विधिष्टदन्तस्य आदिरन्तेन सहता येन विधिष्टदन्तस्य वृद्धिर्यस्य च मानिस्तद्वृद्धम् वृद्धिर्यस्य च मादिस्तद्वृद्धम् वृद्धिर्यस्य च मानिस्तद्वृद्धम् वृद्धिर्यस्य च मानिस्तद्वृद्धम् वृद्धिर्यस्या चामादिस्तद्वृद्धम् वृद्धिर्यस्याचामादिस्तद्वृद्धम् येन विधिस्तदन्तस्य वृद्धिर्यस्या चद्वृद्धम् येन विधिस्तदन्तस्य वृद्धिर्यस्या चामादिस्तद्वृद्धम् येन विधिस्तदन्तस्य वृद्धिर्यस्य चा माधिस्तद्वृद्धम् ददाती च एम् सा देशे ददावी च एम् सा देशे एव प्राचाम् देशे कदादीनि च एम् ताचाम् देशे तदादीनि च एव प्राचे तदादीनि च एव प्राचे वृद्धिर्यस्य चामानि सद्विद्धम् तदादीनि च एम् ताचाम् देशे वृद्धिर्यस्यामाजि तद्विद्धम् तदानी च एन् प्राचाम् देशे विद्धिर्यस्या चा णिष्ठद्विद्धम् यदानी च एन् प्राचाम् देशे तदन्तर्श वृद्धि यस्या सामान्यतृद्धम् यदा दीनिता एवं काचाम् देशे येन विदृत्तदन्तस्य वृद्धि यस्या सामान्यस्तद्वृद्धम् यदा दीनि च एवं काचाम् देशे येन वित्तदन्तस्य वृद्धि यस्या च सामान्यतद्विद्धम् यदा दीनि च नित्तदन्तस्य वृद्धिर्यस्य चामानितृद्धम् चेशे आदिलम् चेता येन विनिर्तदन्तस्य वृद्धिर्यस्य चामानिस्तर्विद्धम् एन सहेता येन विधिस्तदन्तस्य वृद्धिर्यस्य चामादिस्तद्वृद्धम् तदादीनि च एव प्रान् देशे तस्मिन् निर्दिष्टे पूर्वस्य तस्माद् विद्युत्तरस्य स्वं रूपम् शब्दस्य शब्दसंज्ञा अनुःस्मरणस्य च कर्तयः तपलसत्कारस्य आदिनाङ्केन सहता येन विधिस्तदन्तस्य वृद्धिर्यस्य कामानिस्तर्विद्धम् तदाधी च एवम् तासाम् देशे तस्मिन्निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य संरूपम् शब्दस्य शब्दसञ्ज्ञा अनुदिस्सवर्णस्य चाप्रत्ययः अपरस्तत्कालस्य आदिनन्तेन सहेता येन वित्तदन्तस्य वृद्धिर्यस्यामानिस्तद्विद्धम् यदादीनि च एम् प्राचान् देशे प्रत्यालोके प्रत्यलक्षणम् तस्मिन् निर्दित्य पूर्वस्य तस्माद्दित्युत्तरस्य त्वम् रूपम् शब्दस्य शब्दसञ्ज्ञाम् अनुदि समर्णस्य चा प्रत्ययाम् तपरस्तत्कालस्य आदिनान्त्येन सहता येन दित्तदन्तस्य वृद्धिर्यस्य चामान्यतृत्तम् तदा भीति चेन् ताचाम् देशे इति प्रथमाध्यायस्य प्रथमः पाकः प्रत्यय लोपे प्रत्ययलक्षणम् नानुमताङ्गस्य अचोन्त्यादिति अलोन्त्यात् पूर्व उपधा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसञ्ज्ञा अणुदिः सवरणस्य चाप्रत्ययः तपरस्तत्कालस्य आदिरन्तेन सहता येन विधिस्तदन्तस्य ध्यायस्य प्रथमपादः पुनः विंशति वा वृद्धिस्तरप्तम् पौषि सर्वप्रत्यय लोके चतुर्दशा वृद्धिस्तरप्तमपौषि सर्व प्रत्यय लोके चतुर्दशाक्तम् पौषि सर्व प्रत्यय लोके चतुर्दश वृद्धि वृद्धिस्तरप्तमपौषि सर्वप्रत्यय लोके चतुर्दशा वृद्धिस्तरप्तमपौषि सर्वप्रत्ययलोपे चतुर्दशा वृद्धिस्तरप्तमपौषि सर्वप्रत्यय लोपे चतुर्दशा कस्य लोके प्रत्यम् नस्य अशोन्त्यादिति अलोन्त्या पूर्व उदा तस्मिन् निर्दिश्य पूर्वस्य तस्मा नित्युत्तरस्य त्वम् रूपम् शब्दस्य शब्दसञ्ज्ञा अन्दिवर्णस्य चा प्रत्ययः तपरस्तत्कालस्य आदिनन्त्येन सहता येन विभृस्तदन्तस्य वृद्धिरि यस्य चामानिर्तृद्धम् ददाती च एता देशे इति प्रथमोऽध्यायस्य प्रथमः काला प्रत्ययलोपे चतुर्दशा <Sessizhi> प्रत्ययलोपे प्रत्ययलक्षणम् नालुमताङ्गस्य अशोन्त्यादिति अलोन्त्या पूर्वमुपधा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य संरूपम् शब्दस्याशब्दसंज्ञा अणुतिः समरणस्य चाप्रत्ययः तपरस्तत्कालस्य आदिरन्तेन सहता एन विधिस्तदन्तस्य वृद्धिर्यस्या चामादिस्तद्विद्धम् तदादीनि इति प्रथमोऽध्यायस्य प्रथमः पादः वृद्धिस्तरक्तमपौ भृत्धि, सर्वप्रत्यय लोके चतुर्दशा श्री सर्वनामस्थानम् सुदनपुञ्चत वेदी भाषा कैला सम्प्रसारणम् आर्यन्तौ तविकम् मिलोन्त्यात्परः एत इति धत्वा देशे षष्ठी स्थाने योगान् स्थानेन्तरतमः ता पुरम् न पराम् अलोन्त्यस्य नित्य आदेपरस्य अनिकाश्चित् सर्वस्य हानिवदादेशो न्यौ अजा परस्मिन् पूर्वविधौ न पदान्तदिर्वचनमलेय चरणानुस्वारम् नीतजश्चिषु निर्वचने अदर्शनम् लोपा प्रत्यशृणुपा प्रत्यलोप प्रत्यलक्षणम् ननुमताम् प्रत्यम् अशोन्त्यादिति अयोन्त्यात् पूर्वपूजाम् तस्मिन् नितिम् निर्दिश्य पूर्वस्य तस्मान् नित्युत्तरस्य स्वम् रूपम् शब्दस्य शब्दसञ्ज्ञाम् अन्यस्मरणस्य च प्रत्यया वृद्धिर्यस्य चामादिस्तद्विद्धम् तदादीनि च एम् तासाम् देशे श्री प्रथमोऽध्यायस्य प्रथमापादा वृद्धिर्तलम् बौ श्री सर्वप्रत्ययोप चतुर्दशा श्री सर्वनामस्थानम् सुडनपुरुषकश्च नवेति विभाषा इयणः सम्प्रसारणम् आद्यन्तौ रचितौ विदुचोन्त्य परः एतस्वादेशे षष्टिस्थाने योगा स्थानेऽन्तरतमः बुरण्डपरः हलोन्त्यस्य आदे परस्य अनेकाञ्चित् सर्वस्य स्थानिवदादेशो न विधौ अतः परस्मिन् पूर्वविधौ न पदान्तदुर्वचनवरेयलोप स्वरसवर्णानुसार दीर्घजश्चर्विधिषु निर्वचने च अदर्शनम् लोपः प्रत्ययस्वदृक्स्वरूपः प्रत्ययलोपे प्रत्ययलक्षणम् नानुमताङ्गस्य अशोन्त्यादिति अलोन्त्यात् पूर्वोपधा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य संरूपम् शब्दस्य शब्दसञ्ज्ञा अणुदिस्तवर्णस्य चाप्रत्ययः अपरस्तत्कालस्य आदिरन्तेन सहेता येन विधिस्तदन्तस्य च एवम् प्राचाम् देशे इति प्रथमोऽध्यायस्य प्रथमः पादः वृद्धि सप्तमपौ अथ शब्दानुशासनम् ऐं ह्रीं ए ॐ आई औ ह ओ भग न य मन भाढाधस् जा भाटा थाटाढा थे प्रत्यह श्रोत्र न धातु लोपादधातुके किंवति च विधिवेयिताम् परोनन्तराः संयोगः मुखनासिका वचनोऽनुनासिकः तुल्यासप्रयत्नम् सवरणम् नालौ एके द्विजनौ न गृहम् अथ समादे हुलीहौ न बहुलीहौ तृतीयासमासे दन्ते च विभाषाजने प्रथमचरमदयालपाठपतिशयने माश्वा पूर्वपरावरदक्षिणोत्तरापराधराणि युवसायाम् सञ्ज्ञायाम् समज्ञानिदराख्यायाम् अन्तरम् वैरियो उपसञ्ज्ञालयो स्वराजिनिपातमव्ययम् त्वद्धितश्च सर्वविभक्ते कृन्ता त्वातो शृङ्गणा अग्रैभावश्च श्रीसर्वनामस्थानम् स्मजनपुंसकश्च भवेति भाषा इषणा सम्प्रसारणम् आद्यन्तौ कटितौ विलशो स्यात् स्वादेशे षष्ठि स्थाने योगा स्थानेतमः उदण्डवः अलोन्त्यस्य गीत्या आदे परस्य अनेकाशिसगवस्य स्थानिवतादेशो नल्पिनौ अचापरस्मिन् पूर्वविधौ नापरान्तचन लोपः व्यत्ययस्य ब्रुश्लूषः प्रत्यये लोपे प्रत्यय लक्षणम् नानुन्त्यादिति कलोन्त्यात् पूर्व तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वरूपम् शब्दस्य शब्दसञ्ज्ञा अनुतिक्रवर्णस्य चालयः तपरस्तत्कालस्य आदिनकेन सहेता येन विधिस्तदन्तस्य वृद्धिर्यस्य चामानिस्तविद्धम् च काभि च एम् तासाम् देशे एम् तासाम् देशे ीर्मा शब्दलोके चतुर्दश